गणेशपुराणं क्रीडाखण्डम् अध्यायं 26 सिक्स् मुनिरुवाच किं कर्म कृतवान् व्याधकथं पत्रं समर्पितं किं नामास व्याप्तसालोक्यं तद्वदस्वमे उवाच विदर्भदेशे नगर महिषाख्यं बभूवः विख्यातं त्रि कुबेरनगरोपमं भीमो नामाभवद्व्याधो नगरे मांसविक्रयी परेषां दोषकधने दोषो यद्यपि वर्तते प्रश्ने कृते तु वक्तव्यो याधात्तध्यान्नमत्सराद सभीमो दोषबहुलो बाणकोदण्डवान् वने शरपूर्णे शुधिघट्गी चापं बिभ्रच्च शस्त्रिकाम् अवधीत्प्राणिनो नित्यं कुटुम्बभरणेरधः पथिकान् ब्राह्मणांश्चापि निर्दयो निर्जने वने चिन्नगरे तस्मिन् समारब्धो महोत्सवः प्रादरेव वनं यादो बहु मांसचिकृक्षया विक्रयेच्छोद्रव्यलुब्धो कुटुम्बस्यापि पोषकः जखानमृगयूथास्तान् मांसभारयुधपुरम् यावत् प्रविशदे तावदागतो राक्षसो महान् मनुष्यगन्धहृष्ठोत्सौ ययौ तस्यान्दिकं क्षणाद् पिङ्गाक्षो नामधपिङ्गनेत्र सर्वभयङ्करः mm. मनुष्यश्वापदाशी स दुष्पूर इव चकम्पे सच तम् दृष्ट्वा व्याधो भूमा वधापत पतितानि जशस्त्राणि नेत्रेऽप्याच्छादिदे बलाद उन्मील्य नयने पश्यच्छमीवृक्षं समीपदः आरुरोहज भीमस्तम् राक्षसोऽपि समारुहद तावचिक्षेप शाकां स तत्तपत्रं वायुनेरिदम् अपादगणनाथस्य वामना स्तापितस्यः मस्तके तुष्टो साबुभाभ्यां पूजितस्फुडं वामनाय वरान् यो भूद्गजाननः बलिं विचेदुकामाय कश्य पश्यात्मजाय सख अत्यन्तं तुष्यते दे देवो दूर्वया च शमीदलैः रत्नकाञ्चनसंयुक्ता दिव्यवस्त्रसमन्विता दुर्वाङ्गुरविना पूजा निष्पला जायदे नृणाम् शमीपत्रेण वा सा स्यात् सफला नान्यथा क्वचिद् यज्ञदानवृदैरन्यैस्तपोभिर्नियमैरपि तथा न प्रीयते देवः काञ्चनैरत्नसञ्जयैः दूर्वाभिश्च समीपत्रैर्यथा सुप्रीयते विभुः तयोस्तुष्टो देवदेव प्रेषयज्ञानमुत्तमं स्वरूपधारिभिर्युक्तं किङ्गरै निजलोकदः तेषां निरीक्षणान्नष्टाः पापपर्वतराशयः कृपया च गणेशस्य तयो राक्षस भीमयो भीमयोः यथाग्निगण सम्पर्कान्नश्यन्ते तृणपर्वताभा व्यक्त्वा देहो दिव्यदेहौ गृहीत्वा यानमास्थितौ दूतै सम्पूजितौ नानावस्त्रभूषा विलेपनैः नानावादित्रनिर्घोषयस्त्रीगन्धर्वैयुदं महद नीतौ तौ देवनिकटे नेमतुस्थौ विनायकम् अशेषपापनिर्मुक्तौ प्रापतु स्थौ सरूपदाम् आकल्पं स्थापितौ तेन गणेशेन निजस्थले एवं भावप्रियो देवप्रीयदे भक्तिभावदः तदैव तथैव मुष्टिमात्रान्न सन्तुष्टोऽयं द्विजस्य सः शुक्लस्य प्रददौ दिव्यमलकासदृशं गृहं तस्माद्दूर्वा समीपत्रैर्विना पूजा वृधा भवेद् न महत्या दाम्भिकया पूजया प्रियते तथा भक्तिभावेन कृतया स्वल्पया सौ गजाननः इति श्रीमहागणेशपुराणे क्रीडाखण्डे भीमराक्षसमोक्षणं नाम षड्विंशतितमोऽध्यायः ॐ